शत्रोन् प्रत्येयतु विद्वान्प्रदिदहन्नभिषस्ति परादिम् सेनाम् मोहयतु परेषाम् निर्हस्तां स्मृणवज्जातवेदाः योऽयमुग्रामा ऋत कीदृशे स्थाभिप्रेतमृणतसहध्वम् अमे मृणन्वसा गो नासिताग्न्यर्हेषाम् दोतप्रत्येतो विद्वान् अमित्रसेनाम् माघवन्नस्माच्छत्रो यते मधे युवन्तानिन्द्रवृत्रहन्नग्न्यश्च दहतम् प्रति रसोदीन्द्रप्रवताहरिभ्याम् मृदे वज्रप्रभृणन्ने द्विशत्रो रेः प्रदेशोऽलोचः परा चो विश्वत्सत्यम् गृणिः चित्तमेषा इन्द्रसेनाम् मोहयामित्राणा अग्नेर्वातस्य ध्याज्यादान्विषोचो विनाशया इन्द्रसेनाम् मोहयतु मरुतोघ्नन्तो जयसा चक्षोग्निरा दत्ताम् पुनरे तुजिता अग्निर्मोहदोदः विद्वान् राजदहम् नभिषस्तिमरादिम् स चित्तानि मोहयतुमरे शाम् निरहस्ताम् शृणवज्जातवेदाः अयमग्निरमो महद्याने चित्ता विबोधमत्वकाशः प्रबोधमतु सर्वथाः इन्द्राचित्तानि मोहयन् नर्वाङ्गाकोऽत्याचल अग्नेर्वातस्यध्राध्यातान्विषोचो विनाशया व्याकोदय येषामिताथो चित्तानि मुह्यत अथो यदद्येषाम् हृदि तेषाम् परिनिर्जाहि अमेषाम् चित्तानि प्रतिमोहयन्ते गृहाणाङ्गान्यप्ये पदेः अभिप्रे हि निर्दशोकैर्ग्राह्यावित्राम् समासा विद्यशत्रोन् असौ व्यासेनामरुदः परेषामस्मानेत्यभ्यो ज स्पर्धामाना ध्यतमसापौरुतेरशेषा भन्या अन्यन्नजानात् अचक्रदस्वपाय भोवदग्ने व्यजस्वरोदसेवुरोचे व्यञ्जन् दत्वा भरुतो विश्वरेरसहाय नमसा दादव्यम् दूरचित्सन्तामरुषा च इन्द्रमाच्या वयम् तु सख्याय विप्रम् यद्गायत्रे मृहते मर्कमस्मै सौत्रामण्यानुसेऽन्तदेवाः अर्भ्यस्त्वा राजावरुणोह्वयतु सोमस्त्वाह्वयतु पर्वादेभ्यः इन्द्रस्त्वाह्वयतु विभ्याभ्यः श्येनो भूत्वा विशापातेमाह श्व्येनो हव्यत्तापरस्मादन्यक्षेत्रेऽपारुद्धम् चरन्तम् अश्विना पन्थाम् कृणुताम् सृगम् च इमम् स जाताभिसङ्गे श्वम् क्वयम् श्रुत्वा प्रतिजानाप्रतिमित्रा वृषता इन्द्राज्ञे विश्वे देवाश्च विषिक्षेमा मदेधरन् यश्च हवम् विवदत्स जातो यश्च निष्ठ्याः अवान्तमिन्द्रतम् कृत्वा क्षेममिहावागमया आत्त्वागन् राष्ट्रम् सह वर्चसो देह प्राङ्गिषाम् प्रदेश कलात्मराजा सर्वास्त्वा राजन्प्रदिशाक्वयन्दोपसर्जो नमस्य हदेहत्वाङ्गिषावृणताम् राज्ञा यत्त्वामिमा प्रदिशः पञ्चादेवीः स्मन्राष्ट्रस्य गगुदिश्रय स्वगतो न उग्रहविभाजावसोऽ अच्छत्वायन्तु हविनः स जाता अग्निर्धोतो दिलः सञ्चारादे जायाः पुत्राः सुमनासौ भवन्तु अहम्बलिम् प्रदे पश्या सा उग्रहा रथामनावसते यायगृणश्वतता न उग्राविभाजावसोने आप्रद्रावपरामस्याः परावतः शिवे ते ज्यावाषिवे उभेस्ता तदायम् राजावरोढस्तथा हसत्त्वायमह्वत्स उपेदमेः इन्द्रेन्द्रमनुष्या परे सम् यज्ञास्थावलोके संविधानः सर्त्वायमः पथ्ये सधस्थे स देवान्यक्षत्सवो कल्पयाद्विषाः पथ्या रेवते बहुधा विरोपाः सर्वाः सङ्गत्यमरेयस्ते अक्रन् तास्त्वा आयमगन्धर्णले बलेन बले प्रमणान् सपत्नान् ओजो देवानाम् पजवोषाधीनाम् वर्चासामाजिन्वर्तप्राचारन् मये क्षत्रम् परिणमने मये धारयता त्रयम् अहम् राष्ट्रस्याभिर्वर्गे निजोभो यासमुक्तामः यन्नेन सर्वनस्पतौ गुह्यम् देवाः प्रियम् मणिम् रमस्मभ्यम् सहायुषा देवादु भर्तवे सोमस्य पर्णः सह उग्रमागन्निन्द्रेण दत्त्वावलोनेन शिष्टः त्वम् प्रेयासम् बहुरोच मानो दीर्घायुत्वाय शतशारदाय माह ऋक्षत्पर्णमणिर्मह्याष्टदादये यथाहमुत्तरोसान्यम् न उत संविदाः ये, ये धेवा नो रथकाराः कर्मारायमादेशिताः वस्तेऽन्वर्ण मह्यम् त्वम् सर्वाः हे राजा नो राजकृतः सूताग्रामन्यश्च उपश्चेऽन्वर्णमह्यम् तुम् सर्वान् गृह्णाभितो जनान् वर्णोऽतनोपानस्य यो निर्भेरो वेले नयाः संवत्सरस्य तेजसातेन बध्नामि त्वामणे पुमान् पुंसः परियातोख्यातिरा दधि सहन्तु सत्त्वोऽहन्मा मकान्यानहन् वेष्म्ये च मा णश्वत्थनिःश्रेणेः शत्रोऽन्वैमाधतो जातः इन्द्रेः न वृत्रघ्ना मेदि मित्रेणवलोणेन च यथाश्वस्थनिरभानान् धर्मा हत्याहर्णवेतान् सर्वान् निर्भम् धियानहन्येष् च मा यः श्वत्थत्वया वयम् सपद्नान् स यजीमहि शिनात्तेना निरजनमृत्योःपाशे रमोक्येः अश्वत्थशत्रोन्नामकान्यानहन्दे स्त्रिये च मा यथाश्वत्थवानः स्वत्यानारोहन् गृह्णधारान् एवा मे शत्रोन्मोर्धानम् हे धराञ्च प्रप्लावन्ताञ्छिन्नानौ रेव बन्धानात् प्रवे बाधप्राणुक्तानाम् पुनरस्त्यनिवर्तानम् प्रेणान् मनसा प्रचित्ते नोदब्रह्माणा प्रेणान् लक्षस्य शाखायाश्वस्थस्यानुदामहे हरिणस्या रघुष्यदोधे शेषर्षनि भेषजम् स क्षेत्रियम् विशाणा याविशोचेन मुनेन सत् अनत्पाहरिणो विषा मद्भिश्चतुर्भिरक्ष्णमेत् विषाणे विश्यगुस्फिरम् यदस्य क्षेत्रियम् हृदे अलोचयतावलोचते चतुष्पक्षमिवच्छादिः तेना ते सर्वम् क्षेत्रियमङ्गेभ्यो अमोये तिरुसुभगे विद्रुतौ नाम दारागे ऋक्षेत्रियस्य मुञ्चतामधामम् पाशामुत्तमम् आपये द्वावो भेषजे नापोऽ चादानीः आप, आप विश्वस्य भेषजेस्तास्त्वामुञ्चन्तु क्षेत्रिया रासुते प्रियमाणायाक्षेत्रियम् त्वा व्यानाशे वेदाहम् तस्या भेषजम् क्षेत्रियम् नाशयामि त्वत् अपवास नक्षत्राणामपवासभुषसामुत अपास्मत्सर्वन्वर्भूतमपक्षेत्रियमुक्षतो आयातमित्रऋतभक्तनुकामानः संवेशयन् पृथिवे मुश्रियाभिः थास्मभ्यम् वरोणो वायुरग्निर्बृहद्राष्ट्रम् सञ्जेष्यम् दधातु धाता रातिश्च वितेजम् जोषन्तामिन्द्र स्पष्टा प्रदेहर्यन्तुमेव चाह हुमे देवे मदेतिम् शोरपुत्राम् तु जातानाम् मध्यमेष्ठा यथा सा ोमम् स विदारन्नमाभिश्वानादित्या अहमुत्तरत्वे अयमग्निर्देदायद्दीर्घ्यमेव स जातेरुद्धोतिब्रुवद्भिः हेदशासनपरोगामाधेर्यो गोपाः पुष्पनिर्वाचत् अस्मै कामायोपकामिने विश्वे हे मो देवावोपसंयम् तु सम्भोमनाहंसे संव्राता समागोः देवर्नमामसे अमेयैरुरास्थनः सन्नामयामसे अहं ग्नामि मनसामनाहंसि ममा चित्तमनो चित्तेऽभिवेत ममवशे सुहृदा यानि बष्णोमि ममा यातमनो वर्त्मानयेत कर्षभस्य विशाभस्यद्योस्पिता पृथिवी यथाभिचक्रदेवास्तथापाकृणुता पुनः अश्रेष्माणोऽधारयन्तसादन्मनो नाकृतम् कृणोमि वध्निविष्कन्धम् मुष्का बहो गवामिव विषङ्गे सोऽत्र कृगालम् ददा बध्नन्तु मेधसाः शवस्यम् चापवम् वध्निम् गृह्ण्वन्तु बन्धुराः येनाश्रवस्य वश्चराथ देवा एवासुरमायया सुनाम् कपिरेव दोषा नो बन्धोरा का भवस्या च वृष्टे हित्वा भत्स्यामे दोषयिष्यामेका भावम् उदा शपो रथा इव शमथेभिः सरिष्यथ एकाशतम् विष्कन्धानिभिष्ठेता मनो ेषाम् दामग्रमुज्जाहरणिम् विस्कन्धदूषणम् प्रथमाहं व्यो वाससा धेनुना भवद्य सुमङ्गली संवत्सरस्य प्रतिमा याम् त्वा रात्रिपास्माहे सा गाय स्मतेम् प्रजाम् रायः कोषेण संसृता इयमेव सायाप्रथमाब्दौच्छादाश्विता राजरविप्रविष्टा महान्तो अस्याम् महिमानो अन्तर्वतोयनभागजनेत्रे पास्पत्याग्रावाणाघोषमक्रदः विस्कृन्दः परिवत्सरेरम् एकास्तकसुक्रजसः सुरेरा वयम् श्यामपतयोरयिणा इडायास्पदम् कृतवत्सरे श्रुपञ्जात वेदः ्राम्याः पशवोः विश्वरोपास्तेषाम् सप्तानाम् महिरन्ते वस्तु हामा पुष्टपोषे च रात्रे देवानाम् सुमातोऽस्याम पूर्णा दर्वे परापदशुपोर्णा पुनरापात सर्वान्यज्ञान् समम् भञ्जते समोर्जन्नाभार आयमगन् संवत्सरः प्रतिरेकाष्टगे तव सा नायुष्मतेम् प्रजाम् राजस्पोषेण संसृज ऋतोऽन्या च ऋतुपतेरार्तमानृतः तवेभ्यो माद्भ्यः संवत्सरेभ्यः धात्रे विधात्रे समृधे भूतस्य पताये यजे क्रीडाया दुःपातो वयम् देवान्घृतवातायजे राणलभ्यतो वयम् एकाष्टकातपाशा तप्यमाहानागजानगर्भम् महिमानमिन्द्रम् तेन देवाव्यासहन्तशत्रोन्हन्तादस्यो नाम भवतेः इन्द्रपुत्र सोमापुत्र दरिदासि प्रजापातेः कामानस्माकम् बोरयप्रदे गृह्णाहि विहे हंशा मृत्वा हमिषाजेवानायकमज्ञातयक्ष्मा ऋतराजयक्ष्मा च ग्राहिर्जग्राहयद्येतदे नन्दस्या इन्द्राग्ने प्रमोमुक्तमेनम् यदेक्षितायर्यदे वाकुले तो यते मृत्योरम् त्रिकम् नीत एव अमाहारामिनिर्वेदरुपस्थातस्पार्शमेनम् शतशारदाय सहस्राक्षेण शतवेर्येण शतायुषा हविषाहारुशमेनम् इन्द्रायथेनम् शरदानयाच्यति विश्वस्य दुरितस्य पारम् शतञ्जेव शरदो वर्धनमानः शतम् हेमन्ता शतमोपसन्तान् शतन्तयिन्द्रोः अग्निश्च विता बृहस्पतिः शतायुषा रवेशतम् प्राणापाणावनढ्वाहाविव्राजम् यान्ययम् पुनृत्यभोजामाहृतराच्छतम् इहैवस्तम् प्राणापानो मापगातमितो युवम् शरेरमस्याङ्गानि जलसेवहतम् पुनः जराये त्वापजे ददामि चराये निधोवामि त्वा जरात्वा भृत्याव्या आन्येयम् मृत्यवायानाहृतराञ्छम् अभृत्वा चरिमाहेदकामुक्षणामिव लज्ज्वा यशस्वा मृत्युरभ्यधत्तजायमानम् सुपाशया तन्ते सत्यस्य हस्ताभ्यामुदामुञ्च बृहस्पतेः इहैवध्रुवान्यमेना विशालाम् क्षेमे तिष्ठादिघृतमुक्षमाणा अहम् त्वा शाले सर्वा वेरा सुवेरानिष्ठवेरा उपसञ्जाम हे वद्ध्रुवा प्रदे जिष्ठशाले श्वावते गोमाचे सोऽ ओर्जस्वदे घृतवादे वयस्वृच्छाय स्वमहाजय सौभागाय धर्म्यादिशाले बृहच्छन्दािधान्या आत्मा वत्सो गामेता गोमाराधेनवः सायमास्पन्दमानाः इमां शालाम् च पिता वायुलिन्ना बृहस्तनिर्निमे नोतप्रजानन् उक्षन्तो धनमरुतो धृत न भवनि कृषन्त नोतु मानस्य पत्नीशरनास्यो न देवी देवेभिर्निमेतास्य ग्रेः ऋणम् वसानासुमनासस्त्वमथास्मभ्यम् सहदेः हृदयेनस्थो नामधेरोहवन्सोऽग्रविराजन्नपा वृङ्क्षशक्रोन् माते ऋषन्नुपसत्तारो गृहाणाम् शाले शतञ्जे वेम शरदः सर्व वीराः येमाम् गोमारस्तरोणा वत्सो जगदासः ये माम् परिश्रुतः कुम्भारत्नः कलशे रघुः को नन्नारिप्रभारकुम्भमे सम्भृतस्य धारामृतेन संहृता इमाम् पात्रेण मृतेना समम् धेष्टापोक्तमभिलक्षात्येनाम् इमाप्रभानाम् यक्ष्मा यक्ष्मनाशानिः गृहानुपासेदान्यमृतेन सहाग्निना यतदः संप्रजाते रावनादताहते तस्मादानद्यो ो नामामि सिन्धवः यत्प्रेशीलावरोनेनाक्षेभम् समवागत तदात्मादिन्द्रो बोहितेस्तस्मादापोऽनुष्ठन अपकामम् स्यन्दमानावेतमोहिकम् इन्द्रो वशक्ते भर्देवेस्तस्माद्वार्नामा मोहितम् एको वो देवोऽप्यतिष्ठच्छन्दामानायथामशम् उदानशर्महेरचितस्मादुतकमुच्यते आपो भद्राकृतमिताप आसन्नग्निशोमोऽ बिभ्रत्यापचित्ताः ते वसा मधुवृतामरङ्गमा प्राणेन सहवर्च सागमेत् आदित्पश्याम्यत वा शृणोम्यामाघोषो गच्छति वाङ्मासा मन्ये भेदानोऽमृतस्य तर्हिरण्यवर्णात्रिरम् वामयम् अर्थग तावदेः इहेऽर्थमेत षट्वरेर्यत्रेतम् वेषयामि वः संवो गोष्ठेन सुषदा संवय्यासं स्वभोत्या अहर्जातस्य यन्नामतेना वस्सं श्रेयामसे संवत्स्रजत्वर्यामासम्भोषासम् बृहस्पतेः समिन्द्रयोधानञ्जयोमये वृषतयद्वसो सञ्जग्मानाविर्भ्यजेरस्मिन् गोष्ठ्यगरेशिणेः विभ्रते सौम्यम् मधनमेवा उपेतन इहेव गावयेतनेहोषकेव पुष्यत इहेवोत प्रजायध्वम्मये सञ्ज्ञानावस्तु वः शिवो वो गोष्ठो भावदृशादिशाकेव पुष्यत यहे वोत प्रजायध्वम्मया वः संसृजामसि मया गा भो गोपातिना सजद्धमयम् वो गोष्ठयह वोषयिष्णुः कायस्कोशेण बहुलाभवन्तेर्जीवा जीवन् तेरुका वः स देम इन्द्रामहम् अणिजम् चोदयामि सदायितो पुरयेका नोस्तु मृतन्दरादिम्बलिपङ्िनम् मृगम् जेषानो धनातास्तु मह्यम् ये पन्था नो बहवो देवयानान्तराद्यावापृथिवे सञ्चरन्ति हेमा दुषन्ताम्पया सा हृतेन यथा क्रेत्वा धनमाहरामि विघ्नेनाग्नैक्षमानाहृतेन चोमि हव्यन्तर सेपलाय या वरदेशे ब्रह्मणा वन्दमान इमाम् धियम् सदा शयाय देवी इमामग्ने सरणिम् मे मृषा नायमध्वानमगामदूरम् शृणन्नास्तु प्रपणविक्रयशश्च प्रतिपणःफलिनम् आकृणोतु इदम् हव्यंसम् विधानो जोषधाम् शृणन्नास्तु च निजमुत्थीनम् च येन धनेन प्रबाणम् चलामिधनेन देवाधनामिच्छमानः तन्मे भूयो भवतु मादनीयोऽघ्ने सादघ्नो देवाह्षेध येन धनेन प्रबाणम् चलामिधनेन देवाधनामिच्छमानः अस्मिन्वयिन्दोरुचिमादातु प्रजापादिस्वपिता सोमोऽग्निः उपत्त्वा नमासा वयम् हो दर्वैश्वानरस्तु मह स नः प्रजास्वात्मसु कोषु प्राणेषु जागृहे विश्वाहाते सुतमिद्भरेमाश्वायेषु तिष्ठाते प्रातरग्निम् प्रातरिन्द्रम् हवामः प्रातर्मित्रावरूणा प्रातरश्विना प्रातर्भम् पोषणम् ब्रह्म नस्पतिम् प्रातः सोमामुदरुद्ब्रह्म वामहे प्रातर्जितम् भगामु ब्रह्म वामहे वयम् पुत्रमदेधैर्यो मे धर्ता आद्रश्चिद्यम् मन्यमानस्तुरश्चिद्राजाम्भगम् भक्ष्येत्याह भगप्रणे तद्भगशक्त्यानाथो भगे माध्येदादरन्नः भगप्रणोदने गोभिरश्वर्भगप्रणभण्ड्वन्तः स्याम उदेदानीम् भगवन्तस्यामोदप्रवित्व उदमध्ये अह्ना तो दीतौ मघवान् सूर्यस्य वयम् देवानाम् सुमतो स्याम भगा भगवा अस्तु देवस्तेना वयम् भगवन्तः स्याम तन्वा भग सर्वयुज्यो हवे विषमा भगपुरयेता भावेह समध्वरायोषसानमन्तरधिग्रामे वशुजाये पदाय अर्वाचीनम् वा सुवितम्भगम् मे रसामिवाश्वाचिनावाहन्तो अश्वावतेर्गोमतेऽर्नमुशासो वीरवते सदामुच्छन्तु भद्रा घृतम् दुहाना विश्वसद्वीता योऽयम् पात स्वस्तिभिः सदा नः शीलायुञ्जन्दिगमयोुगाविदम्बत पृथक् धीरा देवेषु सुन्नयौ युनः केशापियुगाद नोदहृदयो नो वपतेहबीषम् विराजष्वष्टासन् नो नेदे यत् शण्यः पक्ष्पमाया वन्यम्बीरवत्सुश्रीमम् सोमसत्सारो उदित्वाम् प्रस्थावद् प्रफर्यम् इन्द्रस्येताम् निगृह्णातु ताम् पोषाभिरक्षतु सा नः पयः सेतुहामुक्तरामुक्तराम् स मा शुनम् सोऽफाला विदोदन्तु भूमिम् शुनम् केनाशा नोयन्तु वाहान् शुनासेराः विशापोषयमानासु विप्पलापोषधेः कर्तमस्मै शुनम्बाः शुनम् नरः शुनम् गतुलाङ्गमनम् शृनम्बरत्रापथ्यन्ताम् शुनमष्ट्रामुदिङ्गया शुनासे रेहस्ना मे दुषेधाम् यद्यविचक्रपयश्चे यथा नः सुमनासो यथा नः सुफलाभुवाः कृतेन सेता मधूना समर्ता विश्वे यद्देवेन नो मता मरुद्भिः सा नः सीते मया साभ्या वा वृत्सोर्जस्वते या सपत्नीम् बाधाते संविन्दतेपतिम् वृत्ताजहरणे सुभागे देवाज्यो तेजहसजे दे सपत्नीम् मे परालुतपतिम् मे केवालम् क्रुधे न हि ते नाम उत्तराहमुत्तरमुत्तरे दुत्तराभ्यः अहत्सपत्ने राममाधरासाधराभ्यः आपत्मि सहमानाथो त्वमाशिषा सहिः वय सहस्वते भोत्वा सपत्नीम् ये सहा वहे अभिदेधाम् सहामानामुपादेधाम् सहीयसी मामनप्रतेमनावत्सङ्गौरे वधावतु वधाभारे वधावतु संशेदम् म इदम् ब्रह्म संशेदम् वीर्या आम्बलम् संशेदम् क्षत्रमदरमस्तु जिश्चर्येषामस्ते पुरोहीतः समहमेषाम् राष्ट्रम् स्या मे समोजोऽ वीर्या आम्बलम् पश्यामि शत्रूणाम् आहोरलेन हविषाहम् नीतैः पद्यन्तामुधारे भवन्तु येन सूर्यम् मखलाहारम् कुरन्यान् क्षिरामि ब्रह्माण्णायामिश्वानहम् तेक्ष्णेयाम् सफलसौ लग्ने स्थेक्ष्णताहुता इन्द्रस्य मज्रात् तेक्ष्णीयाम् सो येषामस्मे पुरोधीतः येषामहमायोधासम् स्याम्येषाम् राष्ट्रम् सुलीनम् वर्धयामि येषाम् शत्रमजलमस्तु जिष्मे येषाम् चित्तम् विश्वे एवम् देवाः रुद्धनिषन्ताम् मघवन् राजेनान्यद्वीराणाञ्जयता मे तु घोषाः पृथग्घोषामुललयः केतुमन्तमुदेताम् देवालीन् लज्ज्येष्ठामरुतोऽयन्तु सेनाया प्रेता जय दादर उद्रावः सन्तु बाहवाः बलधन्वलो हतोऽग्रायो बलानुग्रबाहवः अलासृष्टा परापदशरयोगे ब्रह्म संशिते दयामित्रान् प्रपद्यस्व जह्येषाम् वरम् वरम् मामीषाम् यो निर्वृत्ति यो यतो जातो अरोजधाः अग्ने अच्छावदेहप्रत्यङ्गः सुमना भव प्रणायच्छ विशाम् वदे धनादासिनस्त्वम् प्रयच्छत्वरु यामा प्रभगप्रबृहस्पतेः प्रदेवे प्रोदसोऽनृदाः नयिम् देवे दधातुमे सोमम् राजा नमरासेऽग्निङ्गेर्भिर्हवामहे नित्यम् दृष्टम् सूर्यम् ब्रह्माणम् च बृहस्पतिम् कर्णोग्निभिर्ब्रह्म यज्ञम् च वर्धय त्वर्णाो देवतात वेदयिन्दानायचोदया इन्द्रवायोभाविह सुहवेहः वामहे यथा नः सर्वैर्जनः सङ्गत्याम् सुमनासद्दानाकामश्च नाभुवात् हर्यमनम् बृहस्वतिनिन्द्रन्दानायचोदया पातम् विष्टम् सरस्वते च वितारम् च वाजिनम् वाजस्य न प्रासादसम्बाभोऽपि मे मा च विश्वाभुवानान्यन्तः उपादित्सन्तम् दापयतु प्रजानन्दयम् चानः सर्वा दुःखा मे पञ्चप्रदिशो दुःखामुेर्य सा बलम् प्रापेयम् सर्वा गो तेन्मनसा हृदयेन च गोचनिम्वाच मुदयम् वर्च सा माभ्युदेः ये अग्न्ययोस्वान्तर्ये वृत्रे ये पुरुषे ये अस्मासु या येषुषाधेर्यो वनस्पतेऽस्तेभ्यो अग्नेभ्योदमश्चेतते यः सो मे अन्तर्योगोष्वन्तर्याविष्टो वयःसु यो मृगेषु विवेशद्विपदो यश्चतुष्पदस्तेभ्यो अग्निभ्यो हुतमश्चेतत् इन्द्रेण सरसंयाते देवो वैश्वानलहुतविश्वदाव्याः यञ्जो हेमिवृतानासु सासहिन्द्रेभ्यो अग्निभ्यो हुतमश्चेतत् यो देवो विश्वाद्यमकामाहुर्यम् दातारम् प्रति गृह्णन्तमाहोः योधेरः शक्नः परिभूतराभ्यस्तेभ्यो अग्नेभ्यो हुतमश्चेतत्साहोदारम् मनसाभिजम् विदुष्टयो दशभौवानाः पञ्चमानवाः वचोधसे यशसे सोऽनुदावचेतेभ्यो अग्निभ्यो हुतमश्चेतत् उक्षान्नाय वशान्नाय सोमापृष्ठाय वेधसे वैश्वानरज्येश्वेभ्यस्तेभ्यो अग्निभ्यो हुतमस्त्वेतत् दिवाम् ऋषिवेमन्वन्तरिक्षञ्जे विद्यतामनसञ्चरन्ति येदिक्ष्वा आन्तर्येवाते अन्तस्तेभ्यो अग्निभ्यो हुतमस्वेतत् हिरण्यवानिम् स पिलामिन्द्रम् बृहस्पतिम् वरोणम् मित्रमग्निम् विश्वान् देवालङ्गे रसोऽ हवामः इमम् क्रव्यादम् शमयन्त्वग्निम् शान्तो े पर्वताः सोमा पृष्ठापुत्तमशीव रीः वातः पर्जन्यादग्निस्ते क्रुव्यादमशीषमन् हस्त्येवर्चलसंप्राधताम् याज्यशो आदित्यायत्तन्वः सम्बभूव तत्सर्वे समधर्मह्यमेतद्विश्वे देवादेतिः सजोषाः मित्रश्च अवरोणश्चेन्द्रोः रुद्रश्च चेतुः देवासो विश्वधायषस्त्ये माञ्जन्तुवर्चा सा येन हस्ते वर्चासा सम्बभोमजेन राजा मनश्येष्वप् स्वा आन्तः येन देवा देवतामग्यन्ते न मामद्यवर्त्यसाग्ने वत्यस्मिन् गृणो व्यक्ते वर्चो जातवेदो बृहद्धावत्याहूतेः यावत्सो यस्य च हस्तिनाः कावन्ने अश्विना वर्चा धत्ताम् पुष्कलस्रजा रावश्चदस्रप्रदिशश्चक्षुरु यावत्स हस्ते मृगानाम् सुरदामतिष्ठावान् प्रस्यभगे हस्य भगेन वर्चसाभिषिञ्जामिमामहम् येन वेहद्बभूवेधनाशयामशीलत्वत् विदम् तदन्यत्तत्त्वदपदूरे निदर्भसे आदेयोनिम् गर्भ येतुपुमान् बाणयुवे सुधिम् मावेरोऽत्र जायताम् पुत्रस्य दशामास्यः पुमान्सम् पुत्रम् जानयतम् पुमाननो जायताम् भवासि पुत्राणाम् माता जातानाम् जनयाश्च यान् याने भद्राणि बीजाम् दृशः जनयन् दिश तैस्तम् पुत्रम् बिन्द स्वसा प्रसोऽर्ध्य नो गा भव शृणोमि ते प्राजावत्यमायोनिम् गर्भयेतु ते विन्दः सप्तम् पुत्रम् नारियस्त्वभ्यां समतस्मै त्वम् भव गासाञ्जोस्तिता प्रेथिवे माता सा मुद्रो मूलम् नेतुम् बभूव पयस्वते नोषाधयः पयस्वन्मामकम् वचाः रसोपयस्वते नामाभारेऽहम्साहस्रसः वेदाहम् वयस्वन्तम् चकार धान्यम् बहो सम्भृत्वा नाम यो देवस्तम्भयम् हवामहे यो यो अयज्वनो गृहे विमायाः पञ्चप्रतिशो मानवेः पञ्चगृष्ट्याः ऋष्टेशापम् न दीले वेहस्फातिम् समावाहार उदृत्सम् शतधारम् सहस्राधारमक्षेदम् एवास्माकेदम् धान्यम् सहस्राधारमक्षेदम् शतरहस्तसमाहारसहस्रहस्तसङ्क्येन कृतस्य कार्यस्य जेहस्फातिम् समावाह विस्रो मात्रा गन्धर्वाणाम् चलस्व गृहपत्न्याः प्रासाय्या उपोहस्य समोहश्च क्षर्ता रोदे प्रजापते का विहावहताम् स्फातिम् बहुम् एष कामस्यया भीमातया विध्यामित्त्वाहृदे आधेपर्णाम् कामाशल्यामिषम् सङ्कल्पकुल्मलाम् ताम् सुसन्नताम् का धृत्वा कामो विध्यतत्त्वाहृदे या स्नेहानम् सोषयातिकामस्य एष सुसन्नता सृचा वृद्धाव्यासयाशुष्कास्याभिसर्पमा मृतर्णिमन्यः केवले प्रियवादिन्यनोमृता आचामित्त्वाजन्यापरे मातुरथाविदुः रथामममर्कदामसाममाचित्तमुपायासे यस्ये मित्रावर्णाहृतश्चित्तान्यस्य तम् अथे नाम क्रतुम् कृत्वा ममैव क्रेणदम् वशे ये स्याम् स प्राच्याम् जिरेतयो नाम देवास्तेषाम् वो अग्निवह रेणोमृणतदेनोधिब्रूतदेभ्यो दक्षिणायाम् दिश्य ऋष्यो नाम देवास्तेषाम् वः कामयिषावः तेनोः मृणद तेनो हि ब्रोदतेभ्यो वो नमस्तेभ्यो हस्वाहा येषाम् सप्रतीत्याम् दिशि वै राजा नाम देवास्तेषाम् वामयिषावः ेनोः मृणतरेणोऽधिप्रोदतेभ्यो वो नमस्तेभ्यो वस्वाहा एष्याम् स्थोतीत्याम् दिशि देवास्तेषाम् भो वा चैषवः तेनोः मृणतरेणोऽधिप्रोदतेभ्यो वो ध्रुवायाम् दिषि लिम्बानामदेवास्तेषाम् वपोषधीषावः हेणो मृणततेनोऽधिब्रोतरेभ्यो वो नमस्तेभ्यो वस्वाहाम् स्थोर्ध्वायाम् दिश्यवस्पन्दो नाम देवास्तेषाम् वो बृहस्पदीर्शावः तेनो मृणततेनोऽधिब्रोदतेभ्यो वो नमस्तेभ्यो वस्वाहाचेति अग्निरधिपतिरस्तो रक्षिताधित्यायिषावः तेभ्यो नमाधिपतिभ्यो रक्षिता नमा रक्षितृभ्या न मयुषभ्या नमा येभ्यस्तु योस्मान्वेष्टयम् भ्यो वयम् विश्वस्तम् वाचम्भे दद्मः नादि रक्षे नादिन्द्रोऽधेपतिश्चिराश्चिराजे रक्षिता पितरयिषावः रेभ्यानमोऽधिपतिर्भ्यानमा रक्षितभ्यानमयिषभ्यानमा येभ्यस्तुस्मान् ये वैष्टियम् वयम् निःस्पष्टम् वाचम्भे दद्मः प्रते चेग्मऋणोऽधेपतिः पुरागो रक्षितान्नमिषावः धिपतिभ्यानमा रक्षत्रभ्यानमयिषभ्यानमायेभ्योऽस्तु योस्मान् वैषयम् वयम् निष्मस्तम् भागम् भे दद्मः उदे चेदिक्स्वाधिपतिस्वजा रक्षिता श निशावः रेभ्यानमाधिपतिभ्यानमा रक्षत्रभ्यानमयिषभ्यानमायेभ्यास्तु ैष्टयम् वयम् विश्वस्तम् बोधम् भेदध्मः ध्रुवादिग्विष्णरधिपतिः कल्माशग्रेवो रक्षिता विरुधैष मह तेभ्यानमाधिपतिभ्यानमाहारक्षितृभ्यानमैषभ्यानमायेभ्योऽस्तु स्मान् वेष्ट्यम् वयम् विश्वस्तम् वादम् भेदधमः गो द्वादि बृहस्पते रथेपदेशित्र रक्षिता वर्षमिषावः तेभ्यानमाधिपतिभ्यानमारक्षितोभ्यानमैषभ्यानमायेभ्यस्तु योऽस्मान् वेष्ट्यम् वयम् विश्वस्तम् वादम् भेदध्मः ेनैक एषा दृष्ट्या सम्बाभो वयत्रकासृगन्धभोजकृतो विश्वरोपाः यत्र विजायजयमिन्या वर्तश्च पशोन् क्षेनादिभाति रुशाति तेषा पशोन्सक्षेनादिक्रव्यात् भूत्वा गद्वरी उतेनाम् ब्रह्मणे दद्यात् तथा स्यो नाशिवा स्यात् शिवाभावपुरोषेभ्यावोऽभ्याश्वेभ्यः शिवा शिवास्मै सर्वस्मै क्षेत्राय शिवाना इह इहे इह पुष्टेर्विह रसा इह सहस्र सातमा भव पशून्यपोषय रक्ता तल्लोकैयमिन्य विलम्ब भो वसा नो माहिम् चेत्पुरोषान्पशोंश्च यत्रा सुहार्दाम् सुहृतामज्ञहो प्रहुता यत्र लोकः तल्लोकैयमिन्य विलम्ब भो वसा नो माहिम् चेत्पुरुषान्पशोंश्च यद्राजानविभजन् चेष्टापूर्तस्य षोडशयमस्यामेषा भासदाः अमिस्तस्मात् क्रमुन् प्रति दत्तश्रिपा सर्वान् कामान् बोलयत्याभवन् प्रभवन् भवन् आकोतिप्रोविर्दत्तश्रिपान्नोपादस्यति यो ददातिशितिपादमविल्लोकेन सम्मेतम् भ्यारो हरि यत्र शुल्को न क्रियते अबलेन बलीयसे पञ्चा गोपंशदि पादममिल्लोकेन संनीतम् प्रदातोपजीवति पितृणा लोकेक्षितम् पञ्चा गोपंशदि पादममिल्लोकेन संनीतम् प्रदातोपजीवति सोल्यामासयो रक्षितम् ेवलोपदस्यति समुद्रयैवपयो महत् रेवौ स वासिना विवशि शिवान्तोपदस्यति कैलम् कस्मादात् का कामः कामायातात् कामो दाता कामः प्रतिग्रहीता दा कामः समुद्रमादिदेश का भोमिष्टा प्रदे गृह्णा त्वन्तरिक्षमिदम् महत् माहम् प्राणे नमात्मनामा कृतयाः प्रतिगेक्य विदाधिषि सहृदयम् साम् मनस्यमभिर्देशम् गृह्णामिव अन्या अन्यमभिहर्यत वत्सञ्जातमीवाज्ञा मनोरथः सम्मानाः जायापत्ये मधोमते वाचम् वदद शन्धिवान् मा भ्राता भ्राचारम् ऋक्षन्मा स्पसारमुदस्तुसा सम्यम् च सौव्राता भूत्वा वाचम् वदत भद्रया येन देवान वियन्ति मा ब्रह्म वो पुरोषेभ्यः जायः स्वन्तश्चित्तिनामावियोष्टसंवादयम् तत्सधोराश्चरन्तः अन्य अन्यस्मेः वल्गुपदम् दयेत सेतेनान्वः सम्मानसः शृणोमि समाने प्रवासनवोऽभागश्च माने योक्त्रे सह वो युलज्मे सम्यम् चाग्नि पर्यधानाभे विभाभिताः सद्धेदेनान्नः सम्मानसंस्कृणान्नेकश्चेत् सन्वनानेन सर्वान् देवा एवामृतम् रक्षामाणाः सायम् रागः सो मनसोभोऽस्तु विदेवाधरसामृतम् नित्यमग्ने अराहत्या या अहम् सर्वेरपात्मना वियक्ष्म्येन समायुषा व्याज्यापवामानोमि शक्रः पापकृत्यया याहम् सर्वेण पाप्मना वियक्ष्मेण समायोषा विग्राम्यापशव आरण्येऽर्व्याभस्तृष्णयासरन् ज्ञाहम् सर्वेण पाप्मना वियक्ष्मेण समायोषा वे मेऽद्या वा पृथिवे इतोऽपि पन्था लो दिशम् दिशम् या आहम् सर्वेण पात्मनावियक्ष्मेण समायोषा भ्रष्टा तु हेद्रवाहृतयो शक्तेदम् विश्वम् भुवानम् वियादि या आहम् सर्वेण पात्मनावियक्ष्मेण समायोषा अन्यः प्राणासङ्गाधादिचन्द्रः प्राणेन संहेदः या आहम् सर्वेण पाप्मनाविलक्ष्मेण समायुषा प्राणेन विश्वतोऽवीर्यम् देवाः सौर्यम् समेरयन् या आहम् सर्वेण पाप्मनाविलक्ष्मेण समायुषा आयुस्मतामायुष्कृताहम् प्राणेन जीवमामृथाः यः आहम् सर्वेण पात्मनाविलक्ष्मेण समायुषा प्राणेन प्राणताम् प्राणेहैव भावमामृथाः या सर्वेन सर्वेण पाप्मनाविलक्ष्मेण समायुषा उदायुषा समायुषो दोषाधीनाम् रसेन आहम् सर्वेण पाप्मनाभियक्ष्मेण समायोषा आपर्जन्यश्च वृश्चातस्था मामृता वयम् या आहम् सर्वेण पाप्मनाभियक्ष्मेण समायोषा